न्यव उतोषपे नमः नमस्ते अस्तु धन्मने बाहुभ्यामुदते नमः यात इषः शिवतमा शिवम् बभूवदे धनुः शिवासरोल्या यातवदया नो रुद्रमृडया या रुद्र शिवा रुद्रशिवा तनुरघोरापापकाशिनी दया नस्तनु वाशन्तमजागिरिशन्तापि चाकशीः यामिषम् गिरिशन्त या हस्तेऽपि भष्यस्तवे शिवाङ्गिरिताम् कुरु माहिगुंसेः पुरुषम् जगत् शिवेन वचसा त्वागिरिशाच्छा वदामसि निषालः सर्वमिजगत् लक्ष्मगुम् सुमना असत् अध्यवोचदधिभक्ता प्रथमो देव्याभिषके महेयश्च सर्वाः जम्भजन् सर्वाश्रयातु धान्यः असौ यस्तान्व ये जे मागुम् रुद्रा अभिलो दिक्षुश्रुताः सहस्रशोभैषागुम्भेडजेमहे असौरोपसर्पदिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्जः उतैनम् विश्वाभूतानि स दृष्ट्वा मृडजातिनः नमास्तु नीलग्रीवायुसहस्राक्षायमेटुषे अथोजे अस्तः त्वानोऽहम् देव्यो करम् नमः प्रमुञ्च सम्वरस्तमुभजोराग्निजोर्ज्या याश्च देहस्तरिषवः पराजा भगवो बपा भवदत्यधनुगम् सहस्राक्षसेषु ते निशेल्यशल्याणाम् शिवो नः सुमना भव वीद्यम् धनुःकवर्दिनो विशल्यो बाणवागम् उत अनेशम् अस्येषुरस्य निषम् गसिः या देहे धर्मे ढुष्टमहस्ते तयास्मानि विश्वतस्तमयक्ष्मजा परिभुज नमस्ते अस्माभिजानाददायधिष्णवे उभाभ्यामुददे नमो बाहुभ्याम् तव धन्वने फलिते धन्मनो हेतुरस्मान् गृणद् विश्वतः अथो चिषधिस्तवारे नमो हिरण्यवाहवेशेनान्ये दिशां च पदजे नमो नमा वृक्षेभ्यो हरिकेशेभ्यः पशूनां पदरे नमो नमः सस्मिन्दरा जत्युषे मदेशीनां पदजे नमो नमो बभृशाजविजान्नानां पदजे नमो नमो हरिकेशाजोपवेतिने पुष्टानां पदेन हेत्येकदां पददे नमो नमो रुद्राया तदागिने क्षेत्राणां पददे नमो नमः सूताया हन्दायवनानां पददे नमो नमो रोहिताय वृक्षाणां पददे नमो नमो मन्त्रणेवानिजाय कक्षाणां पददे नमो नमो भुवं ददेवाय वस्कृता जौषधीनां पददे नमो नमः उच्चैर्घोषाय पददे नमो नमः नवेता यथावदे सत्त्वनाम् वददे नमः नमः सहमानाय निं जाथिन आं जाथिनीनां पतदे नमो नमः ककुभाय निषङ्गिणे स्तेनाम् पतरे नमो नमो निषङ्गिणमते तस्कराणां पतदे नमो नमो वञ्चते परिवञ्चदे स्तायूनां पतदे नमो नमो निचै नवे परिचराजारण्यानां पतदे नमो नमः पतदे नमो नम वृष्णेश गिरजराजकुरुनां पददे नमो नम विषुमद्भ्यो धन् वा विभ्यश्च व नमो नमः आतन्वा नेभ्यः नमो नमः आयच्छद्भव नमो नमास्यद्भ्य विद्वद्भ्यश्च नमो नम आसेनेभ्येभ्यश्च व नमो नमस्तवद्भो जाग्रद्भ्यश्च नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च नमो नमः सभाभ्य भ्यश्च भावभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपदिभ्यश्च नमः ुजाभ्य विविद्धेभ्यश्च वानमानमगणाभ्यस्त्र बह्मदेभ्यश्च नो नमो कृच्छेभ्य गृत्स्पदेभ्यश्च वा न मानमो व्रातेभ्यो व्रातपदेभ्यश्च वा नो न गणेभ्यो गणपदेभ्यश्च वा न मानमोऽलोभेभ्य विश्वरूपेभ्यश्च वा नो नम महद्भ्यः क्षुल्लकेभ्यश्च वा न मानमा रथेभ्यो रथेभ्यश्च रथपदिभ्यश्च वो नमा नम सेनाभ्य सेनानिभ्यश्च नमो नमः क्षत्रुभ्यः सङ्ग्रहेतुभ्यश्च नमो नमस्तक्षब्भ्यो न सकारेभ्यश्च वो नमो नमः कुलारेभ्यः नमो नम इषकृद्भ्यो नमो नमा नमो नमस्वभ्यश्च नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशदय जनभवनेरग्रीवाय दश दण्ठाय च नमःकवर्दने च व्यक्तकेशाय च नमसहस्राक्षाय च शतधन्मने च नमो केशाय चषष्टाय चमो मे ठुष्टमा च नमो ह्रस्वाय जनामो बृहदे च वर्षे जसे च नमो वृद्धाय च संवृद्धने च नमो अग्रियाय जवा च नम आशवे जराय च ेभ्यागत नव कोर्म्यागचावस्वन्यागत नमः नमोहा ज्येष्ठाय जघनिष्ठाय जनमः पूर्वजाय चजाय धनमो मध्यमागजा गन्भाय जनमो जघन्याय जबुध्निजाय धनमसौभ्याय जप्रति सर्जाय धनमो यामन्याय चक्षेम्याय जनमपुर्भर्याय जफुल्याय धनमश्लोक्याय चाव्याय धनमोऽवन्याय झगक्ष्याय धनमश्रवाय जप्रति श्रवाय धनम रजावभिन्दते जनमो वर्मिणे च जनमो धनमो बिन्मिने च कवचने जनमश्रुतार च श्रुतसेनाय नमोदं दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय चिताय च नमानिषङ्गिणे च मदे जनमस्तेक्ष्णेष्ठवे च युधिने जनमस्वायुधाय धने च नमस्मृत्यायत्याय जनवः काप्याय च नेप्याय जनमस्वोद्याय च सरस्याय ध नमो नाद्याय च वैशन्ताय मेघ्यादच विद्युत्याय च नव एभ्ययाय चा तप्याय च नभो वात्याय च लेश्म्याय च नमः सोमाय च रुद्राय च नमः प्रतरणाय चोत्तरणाय च नम आचार्याय चालाय च नमषष्ठ्याय चैन्याय च नमस्य नमनिरिण्याय च प्रवध्याय जनमह् शिलाज च क्षयणाय जनमक्कपद्दे च पुरस्तरे च नगोष्ठ्याय जगिष्याय जनमस्तल्व्याय जघेह्याय जनमकाड्याय जगः परेष्ठाय जनमो हद्याय जनभेष्ट्याय जनमस्पागं सद्याय ्याय जनवापगुरमाणाय चाभिक्षते जनम आखिरते च प्रक्षिदते जनवालिकेभ्यो देवानागुङ्हृदयेभ्यो नमाभिक्षीटकेभ्यो नमा विचिन्वत्केभ्यो न आनिर्हतेभ्यो नीमत्केभ्यः अन्धदस्पदे दरिद्रम् नीललोहिता पुरुषाणामेषाम् पशूनाम् रुद्रशिवातनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तदा नो वृणजीवसे मागम् रुद्राय तमसे गवर्जने राजप्रभरामहे मति ुपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे राजनमसा विधेमते याच्छान्तजा समनुरागजे पिता तदस्या मनोवरुद्र प्रणेतौ मान महान्तमुदमानार्भकम् मान भुक्षन्तमुदमान मानावधे पितरम् मोदमादरम् मानस्तो रुद्ररीरुषः मानस्तोकेतनजे मान आयुषि मानो गोषुमानो अश्वरीरुषः वीरान्मानो रुद्रभामितो विश्वम् तो नमसा विधेमते आरात्येवयद्वीरायश नमस्मेते ृगन्न रुद्रस्तवानो बहत् नग्रम्द्रस्तवानो अन्यन्ते अस्मन्निपन्तु मेध्यस्तो कायतनजा मे घट्टमशिवदमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधा जकृत्यम् वसानहाचरविनाकम्ब्यभ्रदागहि मिगिरिदविलोहितनमस्ते अस्तु भगवः यास्ते सहस्रगुम्हेतयोन्यमस्मन्यवपन्तुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनाम्खाकृधि सहस्राणि सहस्रशोदे रुद्राधिभूम्या तेषाकम् सहस्रजोने वधन्वाणि तन्मसि अस्मिन् महत्यन्नक्षे भवासि नीलग्रे वाश्रुतिकण्ठाः शर्वा अधः क्षमासराः नीलग्रेवाश्रुतिकण्ठादिवकम् रुद्रा उपसृताः ये लक्षेषु तस्मिन् दरा नीलग्रे ये भूता नाम चिपतजो शिखासः कपद्दिनः ये अन्येषु विविध्यम् दिपात्रेषु पिपतो जनान् ये पथाम्बथलक्षद हैलभृताय विजुधः ये तेच्छानि प्रचलन्ति शृगावन्तो निषङ्गिणः यावन्तस्त भूजागम् दिशोरुद्रावितस्थिरे तेषागम् सहस्रजो जने वधन्वाणि स्तेभ्योदश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदेचेर्दशस्तेऽभ्यो नमस्ते नामृदयम् भ्रमाचष्टमाजैर्जुतम् भोजम्भे दधामि ओ